अथ द्विचत्वारिंशः सर्गः एवमुक्त्वा तु परुषम् मारीचोरावणम् ततः गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिम् चर प्रभोः दृष्टश्चाहम् पुनस्तेन शरचापासिधारिणा मद्वधोद्यतशस्त्रेण निहतम् जीवितम् च मे न हि रामम् पराक्रम्य जीवन्प्रतिनिवर्तते वर्तते प्रतिरूपोऽसौ यमदण्डः तस्य ते किम् नु कर्तुम् मया शक्यमेवम् त्वयि एष गच्छाम्यहन्ता तस्वस्ति निशाचरा प्रहृष्टस्त्व वचनेन स राक्षसः परिष्वज्य सुसंश्लिष्टमिदम् वचनमब्रवीत् इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः आरुह्यतामयम् शीघ्रम् खगो रत्नविभूषितः मया सह रथो युक्तः पिशाच वदनैः खरैः प्रलोभयित्वा गन्तुमर्हसि ताम् शून्ये प्रसभम् सीतामानयिष्यामि मैथिलीम् ततस्तथेत्युवाचैनम् रावणम् ताटका ततो रावणमारीचौ विमानमिव तम् रथम् आरुह्याय यतुः शीघ्रम् तस्मादाश्रममण्डलात् तथैव तत्र पश्यन्तौ पत्तनानि वनानि च गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च समेत्यदण्डकारण्यम् राघवस्याश्रमम् ततः ददर्शसह मारीचो रावणो राक्षसाधिपः अवतीर्यरथा तस्मात्ततः काञ्चन भूषणात् हस्ते गृहीत्वा मारीचम् रावणो वाक्यमब्रवीत् एतद्रामाश्रमपदम् दृश्यते कदलीवृतम् क्रियताम् तत्सखे शीघ्रम् यदर्थम् वयमागताः स रावणवच श्रुत्वा मारीचो राक्षसस्तदा मृगो भूत्वा श्रमद्वारि रामस्य वि चचारः स तु रूपम् समास्थाय महदद्भुतदर्शनम् मणिप्रवरशृङ्गाग्रस्सितासितमुखाकृतिः रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः किञ्चिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वम् विराजितः मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः क्षणेन राक्षसो जातो मृगः परमशोभनः वनं प्रज्वलयन् रम्यम् रामाश्रमपदम् च तत् मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः प्रलोभनार्थम् वैदेह्यानानाधातुविचित्रितम् विचरम् गच्छते सम्यक्षाद्वलानि समन्ततः रौप्यैर्बिन्दुशतैश्चित्रम् भूत्वा च प्रियदर्शनः विटपीनाम् किसलयान् भक्षयन् विचचारः कदलीग्रहकम् गत्वा कर्णिकाराणि तस्ततः समाश्रयन् मन्दगतिम् सीता ततः राजीवचित्रपृष्ठः विरराजमहामृगः रामाश्रमपदाभ्यासे विचचार यथा सुखम् पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः गत्वा मुहूर्तम् त्वरया पुनः प्रतिनिवर्तते विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति आश्रमद्वारमागम्य मृगयूथा निगच्छति मृगयूथैरनुगतः पुनरेव निवर्तते सीतादर्शनमाकाङ्क्षन् राक्षसो मृगताम् गतः परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् समुद्वीक्ष्यत सर्वे तम् मृगायेन्येव नेचराः उपगम्य समाघ्राय विद्रवन्ति दिशो दशा राक्षसोऽपि तान्मन्यान् मृगान् मृगवधेरतः प्रच्छादनार्थम् भावस्य न भक्षयति संस्पृशन् तस्मिन्नेव ततः काले वैदेही शुभलोचना कुसुमापचये व्यग्रापादपानत्यवर्तता कर्णिकारा न शोकांश्च चचाररुचिरानना, शमदिरेक्षणा कुसुमान्यपचिन्वन्ती च चाररुचिरानना अनर्हावनवासस्य सातम् ददर्श परमाङ्गना तम् वैरुचिरदन्तोष्ठम् रूप्य धातु समुदैक्षता सचताम् रामदयिताम् पश्यन् मृगः विचचार ततस्तत्र दीपयन्निव तद्वनम् दृष्ट्वा तम् नानारत्नमयम् मृगम् विस्मयम् परमम् सीता जगामजनकात्मजा इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विचत्वारिंशः सर्गः